हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे तृतीयोऽध्यायः ब्रह्मोवाच विमानं तन्मनोवेगम् यत्र स्थानान्तरे गतं न जलम् तत्र पश्यामो विस्मिता स्मो वयं तदा वृक्षात् सर्वफलारम्या कोकिलारावमण्डितः मही महीधरा कामम् वनानि उपवनानि च नार्यश्च पुरुषाश्चैव पशवश्च सरिध्वरा वाप्य कूपा तडागा च निर्धरा पुरतो नगरं रम्यम् दिव्यप्राकारमण्डितम् यज्ञशाला समायुक्तम् नानाहर्म्य विराजितम् प्रत्यभिज्ञातदा दातापि अस्माकं प्रेक्षतत्पुरम् सर्वोऽयमिति केनासु निर्मितोऽस्ति तदाद्भुतम् राजानं देव सङ्काशं व्रजन्तं मृपया वने अस्माभिः संस्थितः दृष्ट्वा विमानो परिचाम्बिक क्षणाच्चाल्य गगने विमानं पवनैतम् मुहूर्ताद्वा सप्राप्तं देशे चान्ये मनोहरे नन्दनं च वनं तत्र दृष्टम् अस्माभि पालिजातृष्ठाय संस्मिता सुरभिस्थिता चतुर्दन्तो गजस्तस्य समीपे समवस्थितः अप्तरसाम् तत्र वृन्दानि मेनका प्रभृतीनि च क्रीडन्ति विविधे भावै गाननृत्य समन्वितै गन्धर्वाशतशस्तत्र यक्षा विद्याधर तथा मन्दारवाटिका मध्ये गायन्ति च रमन्ति च दृष्टशतकृत्र पौलोम्या सहितप्रभो वयम् तु विस्मिता चास्म दृष्ट्वात्रैवीटपम् तदा यादपतिं कुबेरं च इवं सूर्यं विभावसु विलोक्य विस्मिता चास्म वयं तत्र सुरंस्थितान् तदा विनिर्गतो राजा पुरा तस्मात् देवराज युवाक्षोभ्यो नर्बाह्या वनोऽस्थित विमानस्थावयम् तच्च चाल्य तत्सागतम् ब्रह्मलोकम् तदा दिव्यम् सर्वदेव नमस्कृतम् तत्र ब्रह्माण्डमालोक्य विस्मितो हरकेचव। सभायाम् तत्र वेदाच च सर्वे साङ्गास्वरूपिणः सागराश्रितश्चैव पर्वतः पन्नगोरगः मामू चतुः चतुर्वक्त्र कोऽयम् ब्रह्मासनातनः तौ उवाच नैव जाने सृष्टिपतिम् पतिम् कोऽहम् कोऽयम् वि वा भ्रमोऽयम् मम चेश्वरौ गणादथ विमानम् तत् चालाशु मनोजवम् कैलासशिखरे प्राप्तम् रम्ये यक्ष गणान्विते मन्दारवाटिकारम्ये कीरको किल वीणां मृगवाद्य च नादिते सुखदे शिवे यदा प्राप्तं विमानं तत्तदैव सदना शुभात् निर्गतो भगवान् शम्भुरूढारूढ श्रीरोचनः पञ्चाननो दश भुज कृतसोमासशेखर व्याघ्रचर्म परिधानो गज चर्मोत्तरीयकः पास्निरक्षो महावीरो गजाननषडाननौ शिवेन स पुत्रो द्वौ व्रजमानो विरेजतु नन्दी प्रभृतय सर्वे गणपाश्चैव राष्ट्रे जयशब्दम् प्रयुञ्जाना व्रजन्ति शिवपृष्ठगा तद्वीक्ष्य शङ्करम् चान्यम् विस्मिता तत्र नारद मातृभीतं तत्राहम् न्यवसम् मुने क्षणा तस्मात् गिरे शृङ्गाद् विमानम् हसा वैकुण्ठ सदनम् प्राप्तम् रमाधमन्दिरम् असम्भाव्या तत्र दृष्टा मया सुत विशिष्मीये तदा विष्णु दृष्ट्वा तत्पुरमोत्तमम् सदनाग्रे ययो तावधरि कमालोचनः अत सी कुसुमाभास विद्यमान तदा लक्ष्म्या कामिन्या चामरैषु वे भै तं वीक्ष्य विस्मिता सर्वे वयं विष्णुम् सनातनम् परस्परं निरीक्षन्तम् स्थिता तस्मिन् वरासने तदश्च जाल सरसा विमानम् वातरं हसा सुधा समुद्र सम्प्राप्तो मिष्टवारी मौर्म्यमाम् यद्गणसमाकीर्ण चलद्वीत्यी विराजित मन्दारपारिजातादीपादपैतिशोभितः नानाचरणसंयुक्तो नानाचित्रविचित्रितः मुक्तादाम परिक्लिष्टो नानादाम विराजितः अशोक बुकुलाख्यै च वृक्षे गुर्वकादिभिः संवृतः सर्वतः सौम्ये केतकी चम्पकैवृतः कोकिलारावसङ्घोष्टो तीरणस्कारै रञ्जितः परमाभूत तस्मिन् द्वीपे शिवाकार पर्यङ्क सुमनोहरनालिखि चिदोष्ट्यर्थं नानारत्नविराजितः दृष्टोऽस्माभिः विमानस्थै दूरतः परिमण्डितः नानास्तरणसञ्च्छन्न इन्द्रचाप समन्वितः पर्यंक प्रवरे तेन्पीटा बनांगना रक्तमल बरधरा रक्तगंधापनाक्त नयनाकांता विद्युतकोटिम प्रभा सुचारु वक्त विराजिट्यंत सूर्य बिंबिभाखिला श्री श्रीभुवनेश्वरी अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा ह्रृङ्कारजपनिष्ठास्तु पक्षिवृन्दे निषेविता अरुणा कुरुणा मूर्ति कुमारी नवयौवना सर्वशृङ्गार वैशाढ्या मन्दस्मि समुखाम्बुजा उद्यत्री न कुचोद्वन्ध निर्जिताम्भोजकुङ्कुर्मला नानामणे गणाकीर्णभूषण्युपशोभिता कनकाङ्गदकेयूरकिरीट परिशोभिता कनकश्रीचक्रदाशङ्क विचङ्कवदनाम्बुजा हृल्लेखा भुवनेशीति नाम् नामजापरायणै सखेवन्दयस्तदा नित्यम् भुवन् हे श्रीमहेश्वरी रुल्लेखाद्याभि अमर कन्याभिः परिवेष्टिता अनङ्गकुसुमाद्याभिदेवीभिः परिवेष्टिता देवी षट्कोणमध्यस्था इन्द्रराजोपरिस्थिता दृष्ट्वा तां विस्मिता सर्वे वयं तत्र स्थिता भवन् केयं कान्ता च किं नाम न जाने मोत्रसंस्थिता सहस्र नयना रामः सहस्रकरसंयुता सहस्रवदना रम्या भासी दूराद संशयम् नाप्सरा नापि नेयं देवांगना देवाङ्गनाकिर इति संशयमापन्ना तत्र नारद संस्थिता तदा स्व भगवान् विष्णु दृष्ट्वा तां चार्हासिनीम् वाचा स विज्ञानात् कृत्वा मनसि निश्चयम् एषा भगवती देवी सर्वेषाम् कारणम् हि न महाविद्या महामाया पूर्णा प्रकृत्यव्यया दुर्देयार्पधियाम् देवी योगगम्या दुराशया इच्छा प्रार्थना कामम् नित्या नित्यस्वरूपिणी दुराध्यात्मभाग्यैश्च देवी विश्वेश्वरी शिवा वेदगर्भा विशालाक्षि सर्वेषाम् आदिरीश्वरी एषा संवृत्य सकलं विश्वं क्रीडति संक्षये लिङ्गानि सर्वजीवानाम् स्वशरीरे निवेश च सर्वबीजमै च राजते साम्प्रतं सुरौ विमोचय स्थिता पार्श्वे पश्यताम् कोटिचक्रमात् दिव्या भरणभूषाढ्या दिव्यगन्धानुलेपनः परिचर्या परा सर्वा ब्रह्मशङ्करौ धन्या महाभाग हा भागकृतकृत्या स्म साम्प्रतम् यदत्र दर्शनम् प्राप्तम् भगवत्या स्वयम् तिदम् तपस्तप्तम् पुरा यज्ञात् तस्येदम् फलमुत्तमम् अन्यथा दर्शनम् कुत्र भवेदस्माकमादरात् पश्यन्ति पुण्यपूञ्जायै एव दान्या तपस्विनः रागिणो नैव पश्यन्ति देवीम् भगवतीम् चिवाम् मूलप्रकृतिरेवैः शास्त्रता पूरुषसङ्गता ब्रह्माण्डम् दर्शयत्ये च कृत्वा वै परमात्मने द्रष्टासो दृश्यमखिलम् ब्रह्माण्डम् देवतासुरौ तस्यैषा कारणम् सर्वा माया सर्वेश्वरी शिवा क्वाहं वा क्व सुरा सर्वे रम्भाद्यासुरयोषितः लक्ष्यांशेन न भवामः कथञ्चन सैषावराङ्गनाम वै दृष्टा महालवे बालभावे महादेवी दोलयन्तीव मामुदा शयानं वटपत्रे च पर्यङ्के सुस्थिरे धृळे पादाङ्गुष्ठं करे कृत्वा निवेश मुखपङ्कजे ले लीहन्तं च अनेकै बालचेष्टितै रममाणं कोमलाङ्गं वटपत्र पुटेस्थितम् गायन्ति दोलयन्ति च बालभावान् मयि स्थिते सेयं सुनिश्चितम् ज्ञानम् जातं मे दर्शनादिव कामं नो जनति तैषा शृणो तम् वदाम्यहम् अनुभूतम् मया पूर्वम् पत्यभिज्ञा समुत्थिता इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्याम् संहितायाम् तृतीयस्कन्धे विमानस्थै हरातीभि देवी नाम तृतीयोऽध्याये श्रीसकम्बिकायार्पणमस्तु